अत प्रथमाष्टके चतुर्थप्रश्नप्रारम्भः वो उभयेव एते प्रजापतेरध्यसृज्यन्ता देवाश्चासुराश्च तान्नव्यधानात् इमे एन्य इमे एन्य इति स देवानपुंसू न करोत् तानभ्यशृणोत् न् पवित्रेणा पुनाद् तान् परस्ताः पवित्रस्य व्यगृह्णात् ते ग्रहाभवन् तद्ग्रहाणाम् ग्रहत्वम् देवता वा एतादृजमानस्य गृहे गृह्यन्ते यद्ग्रहाः विदुरेन देवाः यस्यैवम् विदुष एते ग्रहा गृह्यन्ते एषा वै सोमस्याहुतिः सोमेन देवा विस्तर्पयानेति खलु वै सोमेन यजते ईदुपाकुंषु जुहोति सोमेनैव तद्देवाविस्तर्पयति यद्ग्रहान् जुहोति देवा एव तद्देवान् गच्छन्ति यच्चमसाञ्जुहोति तेनैवानुरूपेण यजमानस्वहर्गम् लोकमेति किन्वेतरग्र आसीदित्याहुः यत्पात्राणीति इयम् वा एतदग्र आसीत् मृण्मजानि वा एतान्यासन् तैर्देवानव्यावृतमगच्छन् एतानि दारुमजानि पात्राण्यपश्यन् तान्यकुर्वता तैरुपैतेर्व्यावृतमगच्छन् यद्दारुमजानि पात्राणि भवन्ति व्यावृतमेव तैर्यजमानो गच्छति यानि दारुमजाणि पात्राणि भवन्ति अमुमेवतैर्लोकमभिजयते यानि मृण्मजानि इमेव तैर्लोकमभिजयते ब्रह्मवादिना वदन्ति काष्ठदस्रस्थालेर्वायव्याः सोमग्रहणेरिते देवा वै पुष्ण्यमधुहरन् तस्या एते स्तरा आसन् इयम् वै पुष्णिः तामादित्यादित्यस्थाल्या चतुष्फलः पशो न दुह्रन् यदादित्यस्थाले भवति चतुष्फल एव तजा पशो न यजमान इमान्दुहे तामिन्द्र उक्ष्यस्थाल्येन्द्रियमदुहत् यदुक्थ्यस्थाले भवति इन्द्रियमेव तजा दियमान यदा <Sess> ग्रयणस्थाली भवति ऊर्ध्वमेवतया यजमान इमान्दुहे ताम् मनुष्या ध्रुवस्थाल्यायुरदुह्रन् यद्ध्रुवस्थाली भवति आयुरेवतयायजमान इमान्दुहे स्थाल्या गृह्णाति आयव्येन जुहोति तस्मादन्येन पात्रेण पशोम् दुहन्ति अन्येन, अन्येन प्रतिगृह्णन्ति व्यावृतमेव तद्यजमानो गच्छति युगुम् सुराममश्विना नमु चा वा सुरे स च इति वादाशुभस्वती इन्द्रम् कर्म स्वावतम् पुत्रमिव पितरावश्विनोभा इन्द्रावतम् कर्मणा जगुंसनाभिः यत्सुरामम् व्यपिभस्यचीभिः सरस्वती त्वामघवन्नभीष्णात् अहाव्यग्नेहविरास्येते सुजैव घृतम् च मो इव सोमः वाजस निगम् रयमस्मे सुवीरम् प्रशस्तम् देहि यशसम् उक्षणः रषामेषा अवसृष्टा स आहुताः कीलालपे सोमपृष्ठाय वेधसे हृदा मतिञ्जनय चारुमग्नजे नानाहि वान्देवहितगुंसदोमितम् मासगम् सृक्षाथाम् परमे व्योमन् सुरात्मस्य शुष्मिणि सोम एषः मा वाहि पुंसे स्वाञ्यो निमाविशन् यदत्र शिष्टकम् रसिनः श्रुतस्य यदिन्द्रो अपि वक्ष्यकीभिः अहम् तदस्य मनसा शिवेन सो भगुम् राजानमिह भक्षयामि द्वे स्वीये अशृणवम् पितृणाम् अहम् देवानामितमर्त्यानाम् ताभ्यामिदम् विश्वम्भुगनगम् समेति अन्तरापूर्वमपरम् च केतुम् यस्ते देववरुणगायत्र छन्दाः पाशः तन्तकेतेनावयजे यस्ते देववरुणकृष्टप्छन्दाः पाशः तन्तगेतेनावयजे यस्ते देववरुणजगति छन्दाःपाशः तन्तकेतेनावयजे सोऽभो वा, वा एतस्य राज्यमादत्ते यो राजा सन् राज्यो वा सोमेन यजते देवसु वामेतानि एतावन्तो वै देवानागुम् सवाः तये वास्मै सवान् प्रयच्छन्ति तयेन पुनः सुमन्ते राज्याय राजा भवति उदस्थाद्देव्यदितिर्विश्वरूपी आयुर्यज्ञपतावधार इन्द्रायगण्वते भागम् मित्राय वरुणाय च इयम् वा अग्निहोत्री इयम् वा एतस्य निषेदति यस्याग्निहोत्री निषेदति तामुत्थापयेत् ता, उदस्था देव्यदितिरिति इयम् वै देव्यदितिः इमामेवास्मा उत्थापयति आयुर्व्यज्ञपतामधादित्याह आयुरेवास्मिन् दधाति इन्द्राय गण्वते भागं मित्राय वरुणाय चेत्याह यथा ऋजुरेवैतत् अवर्तिम् वा एषैतस्य पाप्मानम् प्रतिक्षाय निषेधते यस्याग्निहोद्रुपसृष्टा निषेधते तान् दुग्ध्वा ब्राह्मणाय दद्यात् यस्यान्नाद्यात् अवर्तिमेवास्मिन्पाप्मानम् रविमुञ्चते दुग्ध्वा ददाति नह्यदृष्टा दक्षिणा दीयते पृथिवीम् वा एतस्य पयः प्रविशति यस्याग्निहोत्रम् दुह्यमानग्निस्कन्दति यदद्य दुग्धम् पृथिवीमसक्ता यदोषधेरप्यसरद्यदापः पयो गृहेषु पयो अघ्न्यासो पयो वत्सेषु पयो अस्तु तन्मयेत्याह पयमेवात्मन् गृहेषु पशुषु धत्ते अभ्येवेणदाप्नोमि यो वै यज्ञस्यार्तेनार्तकं सकम् सृजति उभे वैते तस्यार्झतः आर्झति खलु वा एतदग्निहोत्राम् यद्दुह्यमानज्ञः स्कन्दति यदभिदुष्यात् आर्तेनार्त यज्ञस्य सगं सृजेत् तदेव यादृक्े दृक्ष होतव्यम् अथान्यान् दुग्ध्वा पुनर्होतव्यम् अनार्तेनैवार्थम् यज्ञस्य निष्करोति यद्युदृतस्य स्कन्देत् यत्ततो हत्वा पुनरेयात् यज्ञम् यत्र स्कन्देत् तन्निषद्य पुनर्गृह्णीयात् यत्रैव स्कन्दति तदएवैनत्पुनर्गृह्णाति तदेव जादृक््यै दृक्च होतव्यम् अधान्यान् मृग्ध्वा पुनर्होतव्यम् अनार्तेनैवार्थम् यज्ञस्य निष्करोति विवा एतस्य यज्ञश्छिद्यते यस्याग्निहोत्रेऽधिश्रिते स्वान्तराधावति रुद्रः खलु वा एषः यदग्निः यद्गामन्वत्या रुद्राय पशूनपि दध्यात् अपशुर्यजमानः यदपोन्वतिषन् चेत् अनाद्यमग्नेरापः अनाद्यमाभ्यामपि दध्यात् गार्हवत्याद्भस्मादाय इदम् विष्णुर्विचक्रमहिति वैष्णम् यर्चाहवनीयाध्वगुंसयन्नुद्रवेत् यज्ञो वै विष्णुः यज्ञेनैव यज्ञकुम्सन्तनोते भस्मनापराशान्त्ये निगा एतस्याहवनीयो गार्हवत्यम् कामयते निगार्हवत्या आहवनीयम् यस्याग्निमनुधृतकम् सौर्योभिनिम् रोचते दर्भेण हिरण्यम् प्रबध्य पुरस्ताद्धरेत् अथाग्न्यम् अथा आग्निहोत्राम् यद्धिरण्यम् पुरस्ताद्धरति ज्योतिर्वैहिरण्यम् ज्योतिरेमैनम् पश्यन्नुद्धरति यदग्निम् भोर्वब्रह्म न्यथाग्निहोत्रम् भागधेयेनैवम् प्रणयति ब्राह्मण आर्षेय उद्धरेत् ब्राह्मणो वै सर्वा देवताः सर्वाभिरेवैनम् देवताभिरुद्धरति अग्निहोत्रमपसाद्यातमितोरासीत व्रतमेव हतमनुम्रियते वा एष आत्मना गच्छति अन्तमेष यज्ञस्य गच्छति यस्याग्निमनुधृतकम् सौर्योऽभिनिम् रोचते पुनः समन्यजुहोति अन्तेनैवान्त यज्ञस्य निष्करोति वर्णो वा एतस्य यज्ञम् गृह्णाति यस्याग्निमनुधृतकम् सौर्योऽभिनिम् वारुणम् चरुन्निर्वेत् तेनैव वा यज्ञम् निष्क्रीणीते निवारेणस्याह वनीयो गार्हपत्यम् गामयते निगार्हपत्य आहवनीयम् यस्याग्निमनुधृतहंसौर्योभ्युदेति चतुर्गृहेतवाज्यम् पुरस्ताद्धरेत् अथाग्न्यम् अथाग्निहोत्रम् यदाज्यम् पुरस्ताद्धरति एतद्वा अग्नेः प्रियम् धाम यदाज्यम् प्रियेणैवैनम् धाम् नासमर्थयति यदग्निम्बोर्भकम् हरत्यथाग्निहोत्रम् भागधेयेनैनम् प्रणयति ब्राह्मण आर्षेय उद्धरेत् ब्राह्मणो मे सर्वा देवताः सर्वाभिरेवेदम् देवताभिरुद्धरति पराचीवा एतस्मैप्युच्छन्तेऽप्युच्छति यस्याग्निमनुद्युतकम् सौर्योऽभ्युदेति उषाः केतुनाजुषाम् यजिज्ञम् भे देवेभिर्मिताम् देवेभ्यो मधुमत्तमग्रस्वाहेति दे प्रत्यङ्गिषद्याज्येन जुहुयात् प्रतीचेमेवास्मै निवासयति अग्निहोत्रमुपसाद्यातमितोरासेन नतमेव हतमनुम्रियते अन्तम् वा एष आत्मनो गच्छति यस्ताम् यदि अन्तमेष यज्ञस्य गच्छति यस्याज्ञमनुभृतकम् सौर्योऽभ्युदेति पुनः समन्यजुहोति अन्तेनैवान्त यज्ञस्य निष्करोति नेत्रो वा एतस्य यज्ञम् गृह्णाति यस्याज्ञमनुभृतकम् सौर्योऽभ्यदेति मैत्रम् चरुन् तेनैव यज्ञम् निष्क्रीणीत् यस्याः वनीजेनुद्वा ते गार्हपत्य उद्वादेत् यदाह वनीजमनुद्वाप्यगार्हपत्यम् बन्धेत् विच्छिन्द्यात् भ्रातुर्यमस्मै जनयेत् यद्वै यज्ञस्य वास्तव्यम् क्रियते तदनुरुद्रोपचरति यत्पूर्वमन्वपश्येत् वास्तव्यमग्निमुपासीत रुद्रोऽस्य पशून्धातुकः स्यात् आहवनीजमुद्वाप्य गार्हपत्यम् वन्सेत् इतः प्रथमम् यज्ञे अग्निः स्वाद्योनेरधिजातवेदाः सकायत्रिया तृष्टुभाजगत्या देवेभ्यो हव्यं वह तु प्रजानन्निति छन्दोभिरेवेणस्वाद्योनेः प्रजनयति गार्हपत्यम् वन्थति गार्हपत्यम् वा अन्वाहिताग्नेः पशव उपतिष्ठन्ते स यदुद्वायति तदनु पशवोपक्रामन्द्ये इषेरय्यै रमस्व सहसेद्युम्नाय त्वर्जेवत्यायेत्याह पशवो वैरयेः पशोनेवास्मै रमयते सारस्वतौ त्वोत्सौ समिन्धातामित्याह रक्षामेवै सारस्वतामुत्सौ रक्षावाभ्यामेवै रतुम् समिन्धे सम्राडसि विराडसीत्याह कथन्तरम् वै सम्राड् बृहद्विराड् ताभ्या मे वै रघुम् समिन्धे वज्रो चक्राम् वज्रो वा एतस्य यज्ञम् विच्छिनक्ति यस्या नो वा रथो वान्तराज्ञेयादि आहवनीयमुद्वाप्य गार्हपत्यादुद्धरेत् यदग्ने पूर्वम् प्रभृतम् पदगम् हिरे सूर्यस्य वा गता तत्र रिष्ठामनुसंहरयिताम् सन्नः सृजसु मत्यावाचम्येति पूर्वेणैवास्य यज्ञेन यज्ञमनुसन्तनोति त्वमग्ने सप्रथा असेत्याः अग्निः सर्वा देवताः देवताभिरेव यज्ञकम् सन्तनोति अग्नजे पथि कृते पुरोढाशमष्टाकपालम् अग्निमेव पथि कृतग्नस्वेन भागधेयेनोपधावति स एवम् यज्ञम् पन्थामपि नयति अनन्त्वा दक्षिणा वहे एष समृद्ध्यै यस्य प्रादः स वने सोमादिरुच्यते माभ्यञ्जकम् सवनम् कामयमानाभ्यतिरिच्यते गोर्धयति मरुतामितिधयद्वदेश कुर्वन्ति हिनस्त्यवै सन्ध्यधीतम् सन्ध्यैव खलु वा एतत् यत्सवनस्यातिरुच्यते यद्ध यद्वतेषु कुर्वन्ति सन्धे शान्त्ये कायत्र पुंसामभवति पञ्चदश स्तोमः तेनैव प्रातः सवनान् नयन्ति मरुत्वतेषु कुर्वन्ति तेनैव नयन्ते होतश्च मसमनोन्नयन्ते होदानुशगुंसति मध्यत एव यस्य वाभ्यन्तिरे सवने सोवातिरिच्यते आदित्यम् तृतीयसवनम् कामयमानाभ्यतिरिच्यते गौरिवीतकम् सा न भवति अतिरिक्तम् वै गौरिबीतम् अतिरिक्तम् यत्सवनस्यातिरिच्यते अतिरिक्तस्य शान्त्यै बण्महाधुम् असि सूर्येति कुर्वन्ति यस्यैवादित्यस्य सवनस्य कामेनातिरिच्यते तेनैवैनम् कामेन समर्थयन्ति गौरिमेतगुंसामभवति तेनैव माध्यन्ति नात्सवनान् नयन्ति सप्तदश स्तोमः तेनैव तृतीयसवनान् नयन्ति होतश्च मसमनोन्नयन्ते होदानुशगुंसति हो मध्यतकेव यज्ञकुम् समादधाति यस्य तृतीयसवने सोमो दिरिच्येत उक्थ्यम् यस्योक्थ्येऽतिरिच्येत अतिरात्रम् कुर्वीत यस्यातिरात्रेतिरिच्यते तत्त्वे दुष्प्रज्ञानम् यजमानम् वा एतत्पशव आसाह्ययन्ति बृहत्सामभवति बृहद्वा इमाम् लोकान्दाधार बाहदाः पशवः बृहते वास्मै पशोन्दाधार शिवविष्टवतीषु कुर्वन्ति शिवविष्टो वै देवानाम् पुष्टाम् पुष्ट्यै वै नघुम् समर्थयन्ति होतश्च मसमनोन्नयन्ते होता न शगुंसति मध्यत एव यज्ञगुम् समादधाति एकैको वै जनतायामिन्द्रः एकम् वा एतामिन्द्रमभिसगुम् सुतः यौ द्वौ सगुम् एष विताजते यद्यज्ञः तस्य ग्रावाणो दन्ताः अन्यतरम् वा एते सगुंसम्वतोर्निर्भप्सति पूर्वेणोपसृत्या देवता इत्याहुः पूर्वोपसृतस्य वै श्रेयान् भवति एति वन्द्याज्यानि भवन्त्यभिजित्यै मरुत्वदेः प्रतिपदः मरुतो वै देवानामपराजितमालितनम् देवानामेवापराजित आयतने यतते उभे बृहद्रथन्तरे भवतः इयम् वा परथन्तरम् असौ बृहत् आभ्यामेवैनमन्तरेति वाचश्च मनसश्च प्राणाच्चापाराच्च दिवश्च पृथिव्याश्च सर्वस्माद्वित्ताद्वेद्यात् अभिवर्तो ब्रह्मसावम् भवति सुवर्गस्य लोकस्याभिवृद्धै अभिजिद्भवति सुवर्गस्य लोकस्याभिजित्यै विश्वजिद्भवति विश्वस्यदित्यै यस्य भो जागुंसो यज्ञकृतमगित्याः स देवता वृङ्गिति यद्यग्निष्टोमः सोमः परस्तात् स्यात् मुक्थ्यम् कुर्वीत यस्युक्तः स्यात् अतिरात्रम् कुर्वीद यस्य क्रतुभिरेवास्य देवतावृन्ते यो भिभवते। छन्दोभिरभिभवति सगुंसङ्गतोरभि भवति संवेशायत्वोपवेशायत्वेत्याह छन्दागुम् स वै सन्देश उपवेशः छन्दोभिरेवास्य छन्दागस्यभि भवति इष्टर्गो वा नित्यजावद्धर्यः इष्टर्गः खलु वे पूर्वोष्टः क्षीयते प्राणापानो मृत्योर्मापातमित्याह प्राणापानयोरेव श्रयते प्राणापानौ मामामाः सिष्टमित्याह नैनम् पुरायुषः प्राणापानौ जहितः आर्तिम् वा एतेन यन्ति एषा अन्धेक्षितानाम् प्रमीयते तञ यदपवर्जेयोः क्रोरकृतामिमेषाम् लोकस्यात् आहरदहेति ब्रूयात् तम् दक्षिणतो वैद्यै निधाय सर्पराज्ञिया रिग्यस्तु योः इयम् वै सर्पतो राज्ञी अस्या एवैनम् परिदधति व्यर्थम् तदित्याहुः हो, यत्स्तुतमननुशस्तमिति होता प्रथमः प्राचीना वीते मार्जालीनम् परियात् रामेरनुब्रुवन् उभयोरेवैनम् लोकयोः परिदति अथो धुवन्त्येवैनम् अथोन्येवास्मै इन्धुवते त्रिः परिजन्ति त्रयजिमे लोकाः एभ्य एवैनम् लोकेभ्यो धुवते त्रिः पुनः परिजन्ति षट्सम्पद्यन्ते षड्द्वातवः शक्ष ऋतुभिरेवैनम् धुवते अग्न आयोगम् शिपवसयति प्रतिपदम् कुर्वीरन् रथम् तरसामेषुसोमः स्यात् आजुरेवात्मम् दधते अथोपात्मानमेव विजहतो यजन्ति असुर्यम् वा एतस्माद्वर्णम् कृत्वा पशवो वीर्यमपक्रामन्ति यस्य जोपो विरोहति त्वाष्ट्रम् बहुरूपमालभेत अष्टावीरूपाणामीशे य एव रूपाणामीशे सोऽस्मिन्पशो न दीर्घम् यच्छति नास्मात्पशवो दीर्घमपक्रामन्ति पार्तिम् वा एते नियन्ति एषा निक्षितानामग्निरुद्वाजति यदाह भनीजमुद्वायेत् यत्कम् मन्थेत् विच्छिन्द्यात् भ्रातृव्यमस्मै जनयेत् यदाह भनीजभुद्वायेत् ग्नेध्यादुद्धरेत् यदाग्नेध्य उद्वायेत् गार्हवत्यादुद्धरेत् यद्गार्हवत्य उद्वायेत् अत एव पुनर्मन्धेत् अत्र वासते यत्र खलु वैनुलैनमुत्तमम् पश्यन्ति तदेनमिच्छन्ति यस्माद्गारोरुद्वायेत् प्रमुखमपि कुर्यात् एषा वा अग्नेः प्रियातनोः यत्क्रमुकः प्रिय एवैनम् तनुवा समर्थयति गार्हपत्यम् वन्सति गार्हपत्यो वा अग्नेर्योनिः स्वादेवैनम् यस्य सोम उपदस्येत् सुवर्णगम्भिरण्यम् वेधा विच्छिद्य जेषेऽन्यदाधोनुयाद् जुहुयादन्यत् सोममेवाभिशृणोति सोमम् जुहोति सोमस्य वा अभिषूयमाणस्य प्रिया तनूरुदक्रामत तत्सुवर्णकम् हिरण्यमभवत् यत्सुवर्णकम् हिरण्यम् कुर्वन्ति प्रिययैवैनम् तनु समर्थयन्ति यस्या क्रेतकम् सोममपहरे क्रीणेयादेव सैव ततः प्रायश्चित्तिः यस्य क्रीतमपहरेयोः आदाराविष्टभाल्गुणानि चाभिषमयात् गायत्रेयगुंशो ममाहरत् तस्य योगुंशः परावदत् अ आधारा अफलन् इन्द्रोवृत्रमहन् तस्य पङ्कः परावदत् तानि फाल्गुणान्यफलन् ता वसवोविफाल्गुणानि पशवः सोमो राजा निराधारागिश्च भाग्गुणानि चाभिशृणोति सोममेव राजानमभिशृणोति श्रुतेन प्रातः सवने श्रेणीयात् दध्नामध्यम् दिने नीतमिश्रेण कृतेरसवने अग्निष्टोमः सोमस्याद्रसम् तरसा मा यदेवर्त्युजो मृता स्युः ंगांदिंदध्याभ्य सोमं क्रीणीयाज्ञति सै तत प्राया शक्ति सर्वाभ्यो वाष देताभ्येभ्य पृष्ठभ्य आत्मा गुरते य सत्र गुरते एक मई पुषा यावदस्य भित्ताम् सर्ववेदसेन यजेत सर्वपृष्ठोऽस्य सामस्यात् सर्वाभ्य एव देवताभ्यः सर्वेभ्यः पृष्टेभ्य आत्मानम् निष्क्रीणीते पपमानः सुमर्जनः पवित्रेण विचर्षणिः यः पोता स पुमातुमा पुनन्तु मा देवजनाः पुनन्तु मनबोधिया पुनन्तु विश्व आयवः जातवेदः पवित्रवत् पवित्रेण पुनाहिमा शुक्रेण देवदीव्यत् अग्ने क्रत्वा क्रतोमृण यत्ते पवित्रमर्चिषि अग्ने विततमन्तरा ब्रह्म तेन पुनीमहे उहाभ्यान्देव सवितः पवित्रेण सवेन च इदम् ब्रह्म पुनीमहे वैश्वदेवी पुनति देव्यागात् यस्यै बह्वेस्तनुवो वेतपृष्ठाः तया मदन्तः स धमाद्येषो पयज्ञस्यामपदयोगीणाम् वैश्वातरो रश्मिभिर्मापुनातो पादः प्राणेने शिरोमजोघोः द्यावापृथिवीपयसापयोभिः ऋतापरे यज्ञये मापुनीताम् बृहद्भिः समितस्तृभिः परिषष्ठैर्वेपमन्वभिः ग्ने दक्षयेः पुनाहिमा येन देवा अपुनता येनापो दिव्यङ्कषः तेन दिव्येन ब्रह्मणा इदम् ब्रह्म पुणीमहे यः पावमानेरध्येति ऋषिभिः सम्भृतकम् रसम् सर्वगुम् सपोतमश्नाति स्वदितम् मा धरिष्वणा पावमानेर्यो अध्येति ऋषिभिः सम्भृतकम् रसम् तस्मै सरस्वती दुहे क्षीरकम् सर्पम् मधोदकम् पावमाने स्वस्त्यजनेः स्वदुघाहिपयस्वतेः ऋषिभिः सम्भृतो रसः ब्राह्मणेष्वृतकम् हितम् पावमानेर्दिशन्तु नः इमम् लोकमथो अमुम् कामान् समर्थयन्तु नः देवेर्देवे समाभृताः पावमाने, देवेर देवे पावमाने स्वस्त्यजनेः सुदुःखाहिभृतस्तुतः ऋषिभिः सम्भृतो रसः ब्राह्मणेश्वरमृतगम् हितम् येन देवाः पवित्रेण आत्मानम् पुनते सदा तेन सहस्रधारेण आमान्यः पुनन्तुमा प्राजापत्यम् पवित्रं शताद्यामगम् हिरण्मयम् तेन ब्रह्मविदोभयम् भूतम् ब्रह्म पुणीमहे इन्द्रः सुनीते सह मापुनात् सोमः स्वस्त्यावरुणः समेच्या यमा राजाप्रवृणाभिः पुनातु मा जातवेदामोर्जयन्त्यापुनात् प्रजा देवा अपश्यञ्च मसङ्घृतस्य पूर्णस्वधाम्बोधतिष्ठन्तमजुहवः तेनार्धमासकोर्जमवारुन्धत तस्मादध्वमासे देवा युज्यन्ते इतरोऽपश्यन् च मसङ्घटकस्य पौर्णग्रस्वधाम् तमोदतिष्ठन्तमजुहवः तेन मास्योर्जमवारुन्धत तस्मान्मासि विदृभ्यः क्रियते मनुष्या अपश्यन् चमसङ्घकस्य पौर्णग्रस्वधाम् तमवोदतिष्ठन्तमजुहवः तेन तस्माद्विरह्ण मनुष्येभ्य उपःक्रियते प्रातश्च सायम् च पशवोऽपश्यञ्चमसङ्घृतस्य पोर्णग्गस्वधाम् तमपादतिष्ठन्तमजुहवः तेन त्र हेमोर्जमवारुन्धरा तस्माद्विरह्णः पशवः प्रेरते प्रातः सङ्घवे साजम् असुरा अपश्यम् तेन संवत्सर ऊर्जमवारुन्धत हे देवा अमन्यन्त अमीवा इदमभूवन् यद्वयग्स्मयिति त एतानि चातुर्भास्यान्यपश्यान् तानि निरवपन् तैरेवैषान्तामोर्जमवृञ्जत परो देवा अभवन् परासुराः यद्यजते यामेव देवा ऊर्जमवारुन्धत ताम् तेनावरुन्धे यत् पितरभ्यः करोति यामेव पितर ऊर्जमवारुन्धत ताम् तेनावरुन्धे यदा वसथेन्द्रगम् हरन्ति यामेव मनुष्या ऊर्जमवारुन्धत ताम् तेनावरुन्धे यद्दक्षिणान्तरादि यामेव पशव ऊर्जमवारुन्धत ताम् यच्चादुर्मास्यैर्यजते यामेवासुरा ऊर्जमवारुन्धत तान्तेनावरुन्धे भवत्यात्मना रस्य भ्रातृव्यो भवति निराजो वा एषा विक्रान्तिः यच्चा दुर्मास्यानि वैश्वदेवेनास्मिल्लोके प्रत्यतिष्ठति वरुणप्रभासैरन्तरिक्षे रागमेधैरमस्मिल्लोके एषः का वैतत्सर्वम् भवति एवम् विद्वागश्चातुर्मास्येर् यजते अग्निर्वावसंवत्सरः आदित्यः परिवत्सरः चन्द्रबायिजावत्सरः वाजुरनुवत्सरः यद्वैश्वदेवेन यजते अग्निमेव तत्संवत्सरवा आप्नोति तस्माद्वैष्वदेवेन यजमानः संवत्सरेगस्वस्तशासीवरु प्रभासैजते आदिमे तत्वत्सर तस्वरुण प्रभासैज परीवत्सरेगस्वस्तिमास्तिशासीसीत यधते चंद्रमसमे तत्सर तस्मात् साकमेधैर्यजमानः यावत्सरेणागस्वस्त्यमाशास्थलित्याशासेन यद्भितृयज्ञेन यजते देवानेव तदन्भवस्यति दे। अथवा अस्य वायुश्चानुवत्सरश्चाप्रेता विच्छिष्येते यच्छुणा सेरेयेण गजते वायुमेव तदनुवत्सरमा आप्नोति तस्माच्छुनासेरेयेण यजमानः अनुवत्सरेणागः स्वस्त्यमाशास्त इत्याशासीत संवत्सरम् वा एषे सरेत्याह यश्चादुर्मास्यैर्यजत इति एषः ते संवत्सरवा आप्नोति य एवम् विद्वागश्चादुर्मास्यैर्यजते विशिष्ये देवाः समयजन्त तेऽग्निवेवा यदते एक लोकं जयति यस्म अग्नेर सायु्युमे यदा वैश्वते अथ संवत्सर गृहपतिमाति यृहपतिनोति अथ सहस्रजाति यदा सहस्रजाति अथ गृहमेधिनमाप्नोति यदा गृहमेधिनमाप्नोति अर्थाग्निर्भवति यदाग्निर्भवति अथगोर्भवति एषा वै वैरेश्वरेवस्य मात्रा एतद्वा एतेषामगमम् अतो तो वा उत्तराणि श्रेयागुंसि भवन्ति यद्विश्वे देवाः तदैएदस्वेदेव अथा वरुण राजानम वरुण प्रभासैरयजत स एक तोकमजयत यस्न्दि युण प्रभासैजतेतमे लोकम जयते यस्थ्य आदि से यज्ञ मुपै यदात्यो वरुण राजसैरजतवरुण प्रभासालाण प्रभास अथ सोमो राजंद साकैरजत सैतम लोकमजयत यस्म घंद्रमा विभाति यकतेतमे लोकं जयते यस्म घंद्रमा विभाते चन्द्रमस एव सा यज्यमुपैति सोमोऽपि चन्द्रमाः एषः त्वै साक्षात् सोमम् भक्षयति एवम् विद्वान् साकमेधैर्यजते यत् सोमश्चराजाच्छन्दागुंसि च समेधन्त तत्साकमेधानागुम् साकमेधत्वम् अथर्णवः पितरः प्रजापतिम् पितरम् पितरयज्ञेनायजन्त तगेतम् लोकमजयन् यस्मिन् ऋतवः यत्पितृयज्ञेन यजते एतमेव लोकम् यजति यस्मिनृतवः ऋतूनामेव सागज्यमुपेति यदृतवः पितरः प्रजापतिम् इतरम् पितृयज्ञेना यजन्त तत्पितृयज्ञस्य पितृयज्ञत्वम् अशोषधय इवम् देवम् त्र्यम्भगैरयजन्त प्रथेर्महेति रथोबैता अप्रथन्त एवम् विद्वागस्त्यम्बकैर्यजते रथे प्रजया पशुभिः अथ वायुः परमेष्टिनकंशुणासीरीजेणा यजत स एतम् लोकमजयत् यस्मिन्वायुः यक्षुणासीरीजेण यजते एतमेव लोकम् यजति यस्मिन्वायुः वायोरेव सा यज्यमपैति ब्रह्मवादिना वदन्ति प्रजास्यजायता प्रमी प्रमीयता इति जीवन्वा एष ऋतो नप्येति यदि वसन्ताः प्रमीयते वसन्तो भवति यदि ग्रीष्मे ग्रीष्मः यदि वर्षासु वर्षाः यदि शरदि शरत् यदि हे मन हेमन्तः प्येति संवत्सरः प्रजापतिः प्रजापतिर्वावेशः इति प्रथमाष्टके चतुर्थप्रश्नः समाप्तः